नारायणीयं दशकम् 49 मीटर मीटर् उपेन्द्रवज्र भवत्प्रभावा विदुराहि गोपास्तरुप्रपादादिगमत्र गोष्ठे अहेतुमुत्पादगणं विषङ्घ्यप्रयातुमन्यत्र मनो वितेनुः जगौ भवत्प्रेरण नूनम् इध प्रतीच्यां विपिनं मनोज्ञं वृन्दावनं नाम विराजतीति बृहद्वनं तत् खलु नन्दमुख्या विधाय गौष्ठीनमधक्षणेन त्वदन्विदत्वज्जननी निविष्टगरिष्ठयाना नुगदा विचेलुः अनोमनोज्ञध्वनि धेनुपालीघुरप्रणादान्तरतो वधूभिः भवद्विनोदालपिताक्षराणि प्रपीयनाज्ञायदमार्गदैर्घ्यम् निरीक्ष्य वृन्दावनमीश नन्दप्रसूनकुन्दप्रमुखद्रुमौखम् मोक्तधास्याद्वल सान्द्रलक्ष्म्या हरिन्मणि कुट्टिमपुष्टशोभं नवाकनिर्व्यूढ निवासभेदेष्वशेषगोपेषु सुखासितेषु वनश्रियं गोपकिशोरपाली विमिश्रिदः पर्यवलोकधास्त्वम् अरालमार्गागतनिर्मलाभावां मरालकूजाकृतनर्मलावां निरन्तरस्मेरसरोजवक्त्रां कलिन्दकन्यां समलोकयस्त्वं मयूरकेकाशदलोभनीयं मयूखमालाशबलं मणीनां विरिञ्जलोकस्पृश्य मुच्चशृङ्गायिर्गिरिं च गोवर्धनमैक्षदास्त्वं समं तदो गोपकुमारकैस्त्वं समं ददो यत्र वनान्दमागाः तदस्तदस्तां कुडिलामपश्य कलिन्दजां राघवतीमि वैवाम् तथा विधेस्मिन् विपिने पशव्ये समुत्सुको वत्सगणप्रचारे चरन् स रामोदकुमारकैस्त्वं समीरगेहाधिप पाहिरोगाद सर्वत्र गोविन्दनामसङ्कीर्तनं गोविन्द गो